भतोरात्रो रात्रौ जलं जलम् ब्रह्मविदो जनाः गार्हयन्ति नरान् सर्वान् बलस्थान् नृपतीनपि भारात्ष्ठतमा मह्यम् समीपमपसर्पत कस्मान् माम् नाभिजानीत प्राप्तम् भागीरथी जलम् अङ्गारपर्णम् गन्धर्वम् वित्तमां स्वबलाश्रयम् अहम् हिमानी चेर्षुश्च कुबेरश्च पयः सखा अङ्गारपर्णमित्येवम् ख्यातम् वनं मम हनुगङ्गम् चरन् कामांश्चित्रम् यत्र रमाम्यहम् न कौणपाशृङ्गिणो वा न च मानुषाः इदं समुपसर्पन्ति तत्किं समनुसर्पथ अर्जुन उवाच समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते रात्रावहनि सन्ध्यायां कस्य गुप्तः परिग्रह। भुक्तो वाप्यथवा भुक्तो रात्रावहनि खेचर न कालनियमो ह्यस्ति प्राप्य सरिद्वरां वयं च अकाले त्वामधृष्णुम अशक्ता हिरण्ये क्रूरयुष्मानर्चन्ति मानवाः पुरा हिमवतश्चैषा हे हेमशृङ्गादिनिःसृता गङ्गा गत्वा समुद्राम्भः सप्तधा समपद्यत गङ्गाम् चयमुनाम् चैव प्लक्षजाताम् सरस्वतीम् रथस्थाम् सरयूम् चैव गोमतीम् गण्डकीम् तथा